पुरुमतनकृभ्यद्वेषाभ्या जगतेभ्य पुरयन्ता शिवलोचग् स्वाहादुषानो अतुराज्यस्य वेद स्वाहायन्नो अग्निर्परिवस्कृणा द्वयम् ऋधः पुरयेतु प्रभिन्दन् अयगम् शत्रूञ्जयतु जलदृशानोऽयम् वाचम् जयतु वाचधाधौ पुरुविष्णो घृतम् घृतयोनेऽपिभप्रयिज्ञपगन्दिरा सोमोऽदिकादिकादि देवानामेति निष्कृतमृतस्य यो निमासदमजित्या म् वैश्वानरञ्जयुरग्ने व्रतपदे त्वम् व्रतानाम् व्रतपदशिया मम तनोस्त्वय्यभो जयगं सा मय या तव तनोर्मय्यभो देशा त्वयि यथा यथन्नो व्रतपदे व्रतिना व्रतानि त्यन्यानगान्नान्यानुपागामर्वा द्वापरे रविदम् परोपरे स्तन्धेवैर्नवम् देव यज्ञायै देवस्ताविदामध्वा नक्तोस्मै नग्निस्पथि देवैनगुम् अग्रे नमाले खीरम् जलक्षम् यज्ञस्वसिदस्ते अनुजानप्रणिनागमहते सौभगायाच्छन्महारागः सुवीरः देवस्त्वा <imitation> सितामध्वानक्पलाभ्यस्तौभ्यमुद्विवस्तृणपृथिवीमुण <imitation> हते तेधामान्यसि न मध्ये गावो यत्र भूरि शृङ्गा अयासः अत्राहतदुर्गा यस्य विष्णाः परमम् पदमवभाति भूरे कृष्णाः कर्माणि पश्य लयलो पस्पशे इन्द्रस्य यद्यः सखाः तद्विष्णा परमम् पदकम् सूरयः यले पचक्षुरातम् ब्रह्मवनिम् द्वाक्षत्रवनिकम् स्वप्रजावनिकम् रागस्पाढवनिम् पर्योहामि ब्रह्मजगम् ह क्षत्रन्द्रकम् ह प्रजान्द्रकम् हरागस्पाषन्तकम् ह परिवेरधिपरि त्वादेवेर्विशो देयन्ताम् परेमगम् रागस्पोषायमानम् मनुष्यान्तरिक्षस्य त्वासानामवगूहामि े त्वमवीरस्युपो देवान्देवेर्विष प्रा गुर्वन्वदे धार्या वसो निधव्या देष्वन्तान्द त्वश्चर्वसुरन्वरेवरमध्वमज्ञैत्रमधिकृष्णौ स्वयुलसि पुरोरवाधृते नाथायत्रञ्छन्दान प्रजाय स्वत्रैष्पुभ्जागदं छन्दानप्रजाय असमरसौ समोकसावसौ मा यज्ञकम् युगम् दृष्टम् मा यज्ञपदिम् जातवेदो शिवो भवतमद्यनः अग्नावज्ञश्चरति प्रविष्टहीनाम् पुत्रोऽधिराजगेशः स्वाहाकृत्य ब्रह्मणादेजोहो विमदेवानाम् विषयागर्भागधेयम् आदरऋदस्य त्वा देवः विशेनारभे सरिकामारुषा नभ्यस्तौषधेभ्योक्षाम्यताम् पेरुरसि स्वाञ्चित्सदेव गुम्हव्यमापो देवैश्वरतैन दे पुंसन्ते प्राणो वायुना गच्छता पुंसत्रे रङ्गामि सैयज्ञपतिराधिराधते नाक्तौ वसुन्दराये न्तरिक्षभजो देवेन वादे हविषस्मनाय तमस्य तमवा भवर्षीयसि यज्ञे यज्ञपतिन्धाः पृथिव्याः सम्पृजः पाहि नमस्ताहदाना हृदस्य कुल्या मनसः प्रजना सह राजस्तोषे नापो देवे शुद्धायुवः शुद्धा यूयन् देवागुम्भोज्वगुम् शुद्धा वयम् हरिवृष्टा परिभेष्टारावभूयास्मा प्यायताम् प्राणस्थाप्यायतां चक्षुस्थाप्यायताश्वन्दाप्यायतां जादे प्राणान्शुद्धामजा चक्षुल्या श्रयत्ते क्रोरञ्जदास्थितन्दप्यायतां तत्र ये तेन शुन्धतान्नाभिस्ताप्यायताम् वायुस्ताप्यायता गुंशुद्धाश्चैत्राश्रमत् अभ्यस्तमोरथेऽभ्यस्यम् पृथिव्यै नमो रथेत्रायस्पैनव्यस्पथिते मैनगं हिगं धे रक्षदा भावोऽधीतमहं रक्षो धमन्तमो नयामि योऽस्मान् देष्टियम् च वयम् विष्म इदमे नमधमन्तमो नयामी शेर्वाश्व हेण द्या वा पृथिवीप्रोन्वाधामच्छन्मारायः सुवीरकुर्वन्धैक्षरन्वि हरिवायो वीरिस्तोकानाग स्वाहोर्द्वनफलम् मारुतम् गच्छतम् सन्ते मनसा मनः सं प्राणेन प्राणो युष्टं देवेभ्यो हव्यं धृतवत्सायैन्द्र प्राणोऽङ्गे अङ्गे निदेध्यैन्द्रोपानो अङ्गे अङ्गे विवो भुवद्देव त्वष्टर्भूरिदेव यक्षलक्ष्माणो भवथ देवत्रायन्दमवदेशकायो नत्वा माता श्रीरस्य ज्ञत्वा श्रीनात्वा सवरिमन्वातश्चत्वाद्धे पोष्णोरग्रस्यापामोषधे रागुमरोगिक्ष्ले श्रु लङ्घितपावानप्तवसाम्बसा पावानप्न्तरिक्षस्य हविरी स्वाहा स्वान्तरिक्षागणिश प्रदिश आदिश विदिश बुद्धिश स्वाहादिभ्यो नमोदिग्भ्यः मुद्रम् गच्छ स्वाहान्तरिक्रम् गच्छ स्वाहा देवगुम्बविदारम् गच्छ स्वाहा रात्रे गच्छ स्वाहा मित्रावरणो गच्छ स्वाहा सोमम् गच्छ स्वाहा यच्छनोऽन्द्वयम् पुत्रन्नमशीयसुगसितमोयम् च वयम् दश्मो धाम् नो धाम् नो राजम् हितो वर्णनोमुञ्च जलाभो अध्निया वर्णे विशपामो वर्णनोमुञ्च हविष्महे मापो हविष्मान् देवो अर्धरो हविष्माकुम् आविवासते हविष्माकुम् अस्तु तोर्यः अवपन्नारिहस्य सदसि साधयामि सुन्दय सुन्दये शृङ्गे राधकेन्द्राग्नियो भागधेयेष्ठमित्रावरुणयो भागधेयेष्ठविश्वेधाम् देवानाम् भागधेयेष्ठयज्ञे जागृता त्वादुर्गायत्वोर्ध्वमा ध्वनम्त्रायच्छतोमराजन्येश्वरोहमाभे मा सम्मित्थामा त्वाहि गुंसिषम् प्रजास्त्वमुपावरोऽहम् प्रजास्त्वामुपावरोऽहम् तृषणा वर्णः समिधाहवम् वे शृण्वन्त्वामोषणास्तदेवी शृणोदग्रावाणा विदुषोण यज्ञकुम् शृणोदेवः स पिताहवम् मे देवीरापोहमान्नवाद्योर्मेण विषयन्द्रियान् वैन्दमस्तम् देवे भ्यो दे मत्राभत्तशुक्रतुं शुक्रमेभ्यो देषाम् भागस्थस्वाहाकारशिरस्य पापाम् भर्धगुम् स वर्गदयोक्षित्यामुन्नये यमाग्ने वृक्षमत्यमावोवाजेभृजुना स यन्ताशीरिषः तमग्ने वृद्रासुरो महोदिवस्तगुं शब्मारुषम् वृक्षगीषिषेवादेशिषम् जयस्त्वम् घोषामिषकः पातिमुत्मना आवो राजानमध्वरस्यकम् सत्ययजगुम् रोदस्याः अग्न्यम् पुरातनयज्ञो रवित्ताध्यन्यतोपमयध्वम् अग्निरोहो दारिषसा दारिकीयानुपस्थे मातस्तु रभाव लोके युवा रविः पुनष्टयता वा धत्तादृष्ठेनामुदमध्ययुद्धः साध्येवगर्देवकीजन्मो अग्नियज्ञस्य जिह्वामविदा मरुष्या स आयुराधात्सुरभिर्वसानो भद्रामगर्देवहोदिम्नो अद्या आक्रन्दग्निस्तनयन्निमद्योः क्षामारेहदेव मञ्जन् सद्योजज्ञानोभिः विद्धो अख्यदालोद श्रीभानुनाभात्यन्तः देवसो निपुर्वनेकहोदर्दोषावस्तोरेरिरे यज्ञासः क्षामेव विश्वा भुवनानि यस्मिन् सङ्घोभनानि रके तोभ्यन्ताङ्गिरस्तम विश्वास् सुक्षितयः पृथक् अग्ने कामालये विरे अस्यामतम् काममग्नेतमो यस्यामरे गुम्ल इव सुवीरम् अस्यामवाचमभिवाजयन्तोऽस्यामग्म्नव च राजरन्ते ष्ठभारताज्ञेद्युमन्तमाभर वसव पुरस्पृगवम् वयम् स्वश्रिदानस्तन्यतोऽपि नस्था अजरभिर्णानतद्धर्यमिष्ठः यावकः पुरतमः प्रोहि पृथोर्णेत्रयादिभर्वन् आयुष्टविश्वतोदधयमर्गर्वरेरण्यः पुनश्च प्राणायरिवरा यक्ष्मपुंसुवामिरे आयुद्धा अग्ने हविषो विषाणाभृता हृदयो निवेधित्वामधुजा ऋगव्यम् विदेव पुत्रमभिरक्षता तस्मैते प्रतिहर्यते जातवेदो वितर्धने अग्ने जनामिषु स्मयप्रथमम् जज्ञे अग्निरस्मद्वितीयम् परिजातवेदाः श्रेजमसदमनाजस्रमिन्धानजेन जलते स्वाधी श्रुजः पापगमन्द्योग्ने बृहद्विरोचसे तम् हृदेभिराहुतः दृशानात्मकुर्व्याव्यो आर्यदिशे नृपदिन्दे जनानक्षुजयतो निषर्बन्ध्योरभीदे अग्नश्रद्धवनवर्गयुवानग्स्वाधिजनयत्सूदयच्च स ते गीयधामनधात्वोदभुतशिक्षस्वभर्त्यस्य शिक्षोः अर्ग्ने राजोऽनुतमस्य प्रभूतौ भूयापते सुष्ठुनयश्च वस्वः अर्ग्ने सहन्तमाभरद्भिम्नस्य प्रासुहारयम् विश्वायः सर्षरीरभ्यासाभाजे सासहज समग्ने पृतनासहकं नयुंसहस्रराधयः स्वगुंसि सत्यो अद्भुतो दातावाजस्य गोपतः उक्षान्नायवशान्नाय सोमभृष्ठाय मेधसे स्तोमेर्विधे माग्नये पद्माधिषूनो अस्यक्रे अग्निर्ध्यनुषाज्मान्नम् सत्वन्नवोर्ज नवोर्जन्धाराजर्मजेरवृगेक्षेक्षन्तः अर्ग्नायौकुम्पवसहा भगवर्जमिषञ्चनः आरेपाधस्वजुच्छुना अर्ग्नेपः स्वस्पपाः सुरीर्यम् दोषगुम् नयम् मयि अग्ने पावकरोदिषा मन्द्रया देवजिह्या आदेवानिवक्षियक्षिजापादिवाग्ने देवायम् निराव उपयैकविश्चनः अग्निश्रुचम् प्रदनवस्य सर्वे प्रश्रुते कविः श्रुतिरोचनाहुतः उदग्ने श्रुतस्तवशुत्राभ्याजन्दगीर अहच्योदेकः शक्तयः ओम् आदवेग्रावास्येभ्यो गम्भीरमिमद्भरम् गद्युक् ेन बलिरेन्द्राय त्वा बलुं सुषुतं रघुवन्दृस्पन्दं वृक्षिवमिन्द्राय त्वा वृत्रग्भ्य इन्द्राय त्वा वृत्र तु रीन्द्राय त्वाभिमादिग्भ्य इन्द्राय त्वा दिव्यवदीन्द्राय त्वा विश्वदेव्यावदेश्वात्रास्थवृत्रोत्रा मुदस्य पत्नेऽस्ता देवे देवत्र मज्ञं धोतास्वस्य ृथिव्यास्मेमानायो सदेवत्तं मागं हिकं सिषां मामाहिकं सृष्टां रागपाकृतकरास्मादिशान्तं वणिश्वर यत्ते सोमाजाः जन्नामजागरिकस्मैते सोमसोमा यस्वाहा चस्पदयेवस्तवाजं कृषा मृष्णो अगुंशोभ्याम् अभस्तिभूतो देवो देवानाम् पवित्रमसि येभ्याम् भागवधितेभ्यस्तास्तां कृतोमतेन्द्रियनस्पान्तरे क्षमन्वि स्वाहा सूर्याय देवेभ्यस्पामरे य भजययो निःप्राणाय त्वा यामृहे वा स्यन्दर्य मघवन् पाहि सोमश्रराजस्रमितो यस्मान्तस्ते दधा विद्या वा पृथिवी अन्तर्धरक्षगम् सजोषा देवेद परेश्वरे स्वान्दरि गामे मघवन्मादय स्वस्मामृता मधुमगेर्नस्तुष् दिव्य पार्थिवेभ्यो मनस्त्वाश्व भव सौर्याय देवेऽभ्यस्तामरेभ्यदेशे बालाय त्वा आवायो भोषु जिपा उपनः सहस्रम् ते नियितो विश्ववारन्धो मध्यमया वियस्य देवदभिषेतोः भवेयम् उपयाम गृहेतोऽशि वायवे त्वेन्द्रवायूदिवे सुराः उपा प्रयोभिरागदमिन्द बो वा मुशन्तिः उपयामगि हेतोधिन्द्रवायभ्याम् वेषदेयो नियसोधाभ्याम् त्वा अयम् वा मित्रावरुणा सुत स्वमलतावृथा न मे जयः श्रुतकुम्हरम् उपयाम गृहेतोधित्रावरुणाभ्याम् वैषदेयो निरतायुभ्याम् त्वा त्यस्मिना सृतावती तया यज्ञम् विक्षतम् वयमेवमश्विनावेह गच्छतम् अस्य सोमस्य पेतये उपयाम गृहेतो सष्टिभ्यः वेषदेयोष्टिभ्याः त्वा अयम् वेनश्च नगर्पष्टिगर्भाजोजतोऽभिमाने इममङ्गमे सो यस्य सुषण्ण विप्रामतिभेदिहन्ति उपयाम गृहेतोषण्डाय वैषदेयोजर्भेदम् वा ्रसा पूर्वसा विश्वेमथा ज्येष्ठतायम् परिहिषतकम् सुपर्वितम् प्रदेशेन व्रजनम् दोहसे विनाशयन् दमनुया सुवर्धसे उपयानुगृहेना सुमर्गाय द्वेषते योजः प्रजास्पाहि देवादिव्येकादशस्थ पृथिव्यामध्येकादशस्थानामजिनेकादशष्ठते देवा यज्ञमिनृषध्वोपयामगृहेतास्याक्रेणाभिस्वाक्रेणा यज्ञपतिमभिषवना पाहि विष्वस्वाम् पाहि विषन्वम् पार्हेन्द्रियेणैषेयोर्विश्वेभ्यस्त्वा देवेभ्यः त्रयश्च गणिना भ्रजन्तोऽ दिमगम् रुद्रा पृथिवीम् च सजन्ते एतादशासरः सुसर्गम् सोमञ्जिषम् भार्गम् सव नाय स्यान्द्रेणो विश्वा जिन्मयज्ञम् जिन्मयज्ञपतिमभिरवनापायुविस्ताम् पातु विशन्तम् पायेभ्यस्त्वेभ्यः उपयाम गृहे दोतेन्द्रायत्वा बृहद्वदेवयः पदमुक्तायु वे यत्त इन्द्रबृहद्वयत्तस्मैत्वा विष्णवेय निन्द्रायत्वयि वे मोर्थानम् दिवो हरतिम् पृथिव्या वेष्मा जलमृदाय जातमग्निम् हरिकम् सन्द्राजमध्यञ्जनानामासन्नापात्रम् जनयन्द्रदेवाः स्यग्नयेण त्वा वैश्वानराय ध्रुवायद्ध्रुवक्षय ध्रुवाणाम् ध्रुवदमोच्चदानामच्युदक्षत्तमजेयोनयेण त्वावेश्वानराय मधुश्च माधवश्च शुक्रश्च ुजिश्च नभश्च नभस्यश्चेतश्चोर्गश्च नभश्च तपश्चतभस्यश्चोपगामगृहेतोस्य गुहस्पत्यायत्वा इन्द्राग्नेऽन्न भोगरेण्यम् अस्य पारम् उपयाम गृहे दोषेन्द्राग्निभ्याम् वेददे योगेन्द्राग्निभ्यान्त्वा गोमादश्च विश्वे देवासा गतांसो दाशुः सुतम् उपयाम गृहे दोष विश्वेभ्यश्च देवेभ्य एषदेवश्वेभ्यश्च मरुत्तन्त्रम् विषभम् वा प्रधानमगवारम् शासमिन्द्रम् विश्वासाहमवसे नूतनायोग्रगुम् सहोदायत्वा मरुत्पदये निन्द्रायत्वा मरुत्वदे इन्द्रमरुत्वस्य े तवशो न सम्मन्नारि वा सन्ति कवयस्तु यज्ञाः उपजामगृहे लोहेन्द्रायत्वा मरुत्पदेषादिन्द्रायत्वा मरुत्पदे मरुत्वारणायदाय आदिवोर्म्यन्तकुम् राजा च प्रतिवस्तुताना उपया मृहे रोषेन्द्रायत्वा भरुत्पद एष देजोन्द्रायत्वा भरुत्पदे महागुण् पर्जन्या वृष्टिमागम् जिव सोमे वा वृथे उपयामृतिः रोषि महेन्द्राय द्वेषदेजो निर्महेन्द्रायत्वा महागुण्षणि प्रावृतहा निनः सहोऽभिः अस्मत् यद्वापृथे वैर्यायोः पृथक् भोज उपयाम गृहेतोऽधित्वा चेदानन्देवश्च पृच्छदे उपयाम गृहेतोस्यादित्यैस्तः यच्छपासिजन्मनित्यसर्वनन्दैन्द्रियमातस्थामृतम् दिवे दे यज्ञो देवानाम् प्रत्यपि सुन्दमादित्यायन्तः गृह्माश्चेद्यापरि भो वित्तसत् विभस्वादिप्रेषपीठस्तेन मन्दस्मदेन तृप्यदृप्यास्मदेवयन्तर्पयिता दिव्यादृष्ट्यस्त्रयात्मा श्रीणामि वामश्वाधिवे दिवे, दिवे वाम वस्मभ्यपुंसामि दि। वामस्यभिक्षयस्ते मठोरेयाधिया वा महाजस्याम उभयाम गृहेतोऽसि देवाय त्वात्रे अदभ्येभ्यः स पितः पायभिष्मकम् शिवेभिरद्य परिमाहि नागयम् हिरण्यजपस्तु पिता जलव्यमायम् नाभिषकम् सजीशदा उपयामहितासि देवायत्वासमित्रे हिरण्यपाणिभोदयेता न मये स चेत्ता देवतापदम् उपयामहितासि देवायत्वासमित्रे ष्ठाना बृहदक्षेण विश्वेभ्यः बृहस्पति सुदस्य जयन्दोपदपत्रे बन्धम् ग्रहम् गृह्णाम्येवा सोमम् पिबस्वा हरिदतिहार्य स्था वज्रस्य भक्तावस्य देवदेव सो मे तस्य सत्तोक्षस्य हरिवन्तम् गृहम् गृह्णाति हरे स्त हर्यसहसो मा यस्व अग्रायोगम् शिवपधा सुमाद्यनः हरे माधस्पदुच्छुना उपयाम गृहेतोशग्नैः स्वा तेजस्पद एष देयोग्नैः स्वा तेजस्पदे उत्तिष्ठन्नोजसा सह भीत्वा क्षिप्रे अवेपयः सोमविन्द्रचमोऽसुताम् उपयाम गृहे दोषेन्द्रायत्तौजस्पद एष देयोन्द्रायत्तौजस्पदे तरणिर्विशतरिषदाब्जो दुष्कृतशिशौर्या भिरोधिः भवानः समः एव पूर्वक नाम स्यम् गच्छन्ते मुषसम् अध्या सह अस्माभि रोणः परिलक्ष्या भूतो मेयम् विये ज्योजष्पदेन् त्वासाधयामि ज्योज्कृतम् त्वासाधयामि ज्यो धर्विदम् त्वासाधयामि भास्पदे न् त्वा साधयामि ज्वलन्तेन् त्वासाधयामि प्रयासा यस्वाहा यासा यस्वाहायासा यस्वाहाय्यासा यस्वाहाय स्वाहा वयासा यस्वाहा शुजय स्वाहा शोकाय चिन्तकम् सन्तानेन भवञ्ज्यज्ञान्त्रम् हृदयेन वृद्रङ्गेन सर्वम् मदस्ताभ्याम् महादेव मन्तम् सिङ्गेन गोश्याभ्याम् आदिष्टवृत्तहन्तर्वाचेतकं सुदेवनोग्रावाकृणोतु भग्नुना षोडशिन एषोन्द्राय त्वा षोडशिने महता प्रतिघट्ट सम समृषीनाञ्च स्तुतेरुपयज्ञम् च मानुषाणाम् वयामिहे दोषेन्द्राय त्वा षोडशिन एष लेयोन्द्राय द्वा षोडशिने विष वृक्षृष्टमाग हि योडशिरे सर्वस्य प्रतिशेदो यतो हस्तः समास्मे सुतदास्मै शर्म सप्रथाः यामुहे रोगेन्द्राय त्वाषो रशिल एष वयोन्द्राय त्वाषो रशिने महागण्येन्द्रो वज्रबाहष्वशी जन्म यच्छतु तस्य नाम खवा करोहन्तु पात्मानयस्मान् वेष्टे वयाम् गृहे द्वोन्द्राय त्वाषो रशिल एष वेयो त्वाषो रचिने ोगम् रमृथो न विश्वतो नः उभयामृही दोषीन्द्राय त्वाषोडशिनयो निरन्द्रायत्वाषोडशिने पुरुत्यम् जातवेसञ्जैवम् वहन्ति केतवः हृदयविश्वायसोऽयम् चित्रम् देवानामुदगादने कञ्चक्षुर्मित्रस्य वरुणस्याग्नेः पृथिवी अन्तरिक्षकम् सूर्य आत्मा जगदुषश्च अग्ने मय सुपधाराय अस्मान् विश्वानि देव वैनानि विद्वान् योध्यस्मद्युहुरान मे न भोजिष्ठान्ते नव इवम् गच्छतुमपदरूपेण भो रूपमभ्यै विमयसावयः विश्ववेदापिशेष्ठे अधिनागे एतत् अग्ने पथानस्य सुकृता लोके शीतन्नः सर्गस्कृतम् धाता राजस्य पिते रसन्ताम् प्रजापजन् शिवजन्मग्निः विष्णः प्रजयातगम् रमायमाना यद्रविनन्दधातु समीन्द्रः मनसा ने शिवाभ्यस्तकम् सर्गस्वस्त्या ेवकसंज्ञा सुशापयशासन्तसकम् शिवेन परिवक्रणो त्वनुमाष्टदनुभो यद्विलिष्टम् यदति यज्ञे अस्मिन्नग्ने होतारमेव ष्ठा प्रजाननि यज्ञमुपयाद्वान् स्वगावो देहासमकर्म या जग् नेतञ्जुषाणाः सः पक्विभागुम् सश्च विश्वेस्मे धत्तवस वो वसूनि ज्ञानावहवो देव देवान् हमाना भरमाना हवेकम् शिवसम् घर्मम् दिवमातिष्ठता नो यज्ञयज्ञम् गच्छ यज्ञपदिम् गच्छस्वाञ्जोनिम् गच्छस्वाहैषते यज्ञो यज्ञपते रसोरोक्तवागस्वीर स्वाहा देवा गातुमितो गातुम् मित्त्वा गातुमिदमनधस्पद हिमन्दो देव देवेषु यज्ञ स्वाहा वाजस्वाहा वाते धाः ेदम्भेराष्टे अस्तु बाधस्पद्वेषम्बराजे न प्रभो अभिष्टितो वरुणस्य र्यन्तरण्येत्समुद्रे हृदयमत्सन्तः सन्तापि सन्तोषधेरुतापो यज्ञस्य यज्ञपते हविर्भिः वाके नमो स्तस्मै भूयासुर्यो च वयं दुष्मो देवे देवा देवा देवा भो गर्भस्तं भीरं सुहृदमगन्मेव प्रदितो वरुणस्य वाचः प्रत्यस्त्व वरुणस्य वाचयेषे महि समितसितेजो षितेजो मयिधेत्यपो अन्वचारुषपुंरसेन समक्ष्महि पयस्वागुम् अग्रहागमन्द्रम् मासगम् सृजवच्चसा जस्त्वा हृदा गीरिनामन्य मामो मर्त्यम् मर्त्यो जोह वीरि जातवे दो यशो अस्मादुधेः प्रजाभिलग्ने अमृतत्वमस्याम् यस्मै त्वम् सुकृते जातवेदुलोकमग्ने गृणवस्योनम् अश्विनकम् सपुत्रिणम् धीरवन्तम् गोमन्तकम् भयुम् नशते स्वस्ते त्वे सुपुत्रश वसो धृत्रम् कामकादयः मत्वा इन्द्रातिरिच्यते मुक्स मुक्थे सो महिन्द्रम् ममादनेशे रीथे मघवानगुम् सुदासः यदेकम् सपाधः पितरण्डपुत्राः समानरक्षा अवसे हवन्ते आग्ने रसेन तेजसा जातवेदोऽचसेहापि पचातनः अपो अन्वचारिषकुं रसे नक्ष्महे पयस्वागुम् आग्रागमन्तम् मातकम् सुजवत्क्र बसु बसु ग्ने विभावसु शेषुतासुपतिम् वसो नामभिप्रमन्त्रे हर्धरेषु राजन् प्रजावाजम् वाजयन्तो जये माष्याम कृतेर्मत्यानाम् त्वामग्ने वाजसातमम् विप्रावर्धन्ति सुष्ठुतम् स नो रासु सुवीर्यम् अयम् न अग्निवरिवकृणा द्वयम् पृथक् पुरये त्वप्रिन्दन् अयम् शत्रो वाञ्जयम् वायम् जय दुवाजसाधौ अग्निना विप्रा विप्रेण सदा सखा सख्या गै व्यक्त ृद्रस्य ृजगम् हिरण्यवदक्षिण्यवत्सृजगम्ब्रवेद् भाग्यसाम्यथितमिति पुनराधेयन्ते केवलमित्युवत्खलस इत्य्रवीद्य मद्दे भत्य भग्निमातधाता इति तम् पोषाधत्तरेण पोषात् तस्मात् पोष्णाः पशव गुच्छन्देतं दष्टा धत्ततेन त्वष्टाध्ना तस्मात् काष्ठाः पशव गुच्छन्दैतं मनुरा धत्ततेन मनुरार्धा तस्मां मानव्या प्रजा गुच्छन्दैतं धाता धत्ततेन धातार्ध संवत्सरो मेधाता तस्मात् संवत्सरं प्रजाः पशवो न प्रजायन्ते य एवं पुनराधेयस्येवयो बन्धुमान् भवति भागधेयं वानः प्रजां पशो निजमानस्योपदोदधेयगुं समर्थयत्यथो शान्तिरेवास्येषा पुनर्वस्वोराधेतैतद्वै पुनराधेयस्य नक्षत्रै यत् पुनर्वसोऽस्ताया देवेयं देवतायामाधाय ब्रह्मवर्तजे भवति गर्भे राधधादयामत्वाय गर्भेरादधात्र्यभ्य एवमोषधेभ्यो मनुज्जाधत्ते पञ्चकपालः पुरो मासो भवति पञ्चमारशोध्यदेवै ननुज्जाधत्ते Amen. <laughs>